एवम् प्रलम्भान् विविधान् प्राप्य तत्र विशाम्पते पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनू नृपः अप्रहृष्टेन मनसा राजसूये महाक्रतौ प्रेक्ष्यतामद्भुताम् ऋद्धिम् जगामगजसाह्वयम् पाण्डवश्रीप्रतप्तस्य ध्यायमानस्य गच्छतः दुर्योधनस्य नृपतेः पापा मतिरजायत पार्थान् सुमनसोदृष्ट्वा दृष्ट्वा पार्थिवांश्च वशानुगान् कृत्स्नं चापि हितं लोकमाकुमारं कुरुद्वः महिमानं परं चापि पाण्डवानां महात्मनां दुर्योधनोधार्तराष्ट्रो विवर्णः समपद्यत